समिथो गजति वसन्तमेव तो नामवरुन्धे तनो नपादिङ्गजति ग्रेष्टमेवावरुन्ध इतो गजति स्वाहाकारङ्गति हेमन्तमेवावरुन्धे तस्मात् स्वाहा कृताहेमन्वशवोपसेजन्ति समितो यजत्युषसगेव देवता नामवरुन्धे तनो नवासं गजति यज्ञमेवावरुन्ध हिरो यजति पशूमेवावरुन्धे गजति प्रजामेवावरुन्धे समानयत उपभृतस्तेजो वाहाज्ञम् प्रजापरिह प्रजास्वेव तेजो तथा स्वाहाकारङ्गति वाचमेव रुन्धे दश सम्पद्यं नेतसा क्षना विरा देवान्नाद्यमवरुन्धे समिधाय तस्मिन्नेव लोके प्रतिष्ठति तन्नोनपाथं यजति यज्ञदेवान्तरिक्षे प्रतिष्ठति नो यजति पदक्ष्मेव प्रतिष्ठति परिहृजति यज एव देवयोपन्थानस्तेश्व प्रतिष्ठति स्वाहाकारं यजति सुमग्रजेव लोके प्रतितिष्ठति चेत भोमे देवलोकास्ते पूर्वम् प्रतिगच्छति देवासुरायेषु लोकेश्वस्पर्धन्धते देवाः प्रयाजैरेभ्यो दे लोकेभ्योऽसुरान् प्राणुदन्तत प्रजायाम् प्रयाज त्वय्यस्तम् लोके भ्रातम् या नुदय अभिक्रामञ्जुहात्यभिजत्ययो वे प्रजानाम् मिथुनम् वेधप्रजया वसभि मिथुनैर्जायते समिधो भक्तीरिभगजति तनोनपादमेकमिव मिथुनम् भक्तिरिवगजति भर्हिदेकमिव मिथुनम् तदेतद्वै प्रजानाम् मिथुनै एवम् वेलप्रजया वसभिथुनैर्जायते देवानाम् अनिष्टा देवता यज्ञमजिघागुंसन्ते देवागायत्रे पञ्चाक्षराणि प्राचीनानित्रेण प्रतेनानि ततो वर्म यज्ञानम्भवद्वर्म यत्र याजानो याजा यज्ञं देवर्मै वदत्यज्ञाय क्रियते वर्म यजमानाय भ्रातुर्व्याभिस्मात् ततो सम्पुरस्ता वै पुरारक्षोभ्यगरि स्वाहाकारेण प्रजाजेषु यज्ञं सर्गस्थाप्यमपश्यन्तज्ञ स्वाहाकारेण प्रजा चन्ति वायेन यज्ञं छन्दन्ति यत् स्वाहाकारेण प्रजा च सुसर्गस्थापयन्ति प्रजानिष्ट्वा हवेगस्यभिहारे यज्ञस्य तन्द्या हविदेवाकरसो यथा पूर्वमुपैदिता वै प्रजाजाः याजा निष्पाहवेयस्यभिघारयति विजेवदत् पुत्रेण साधारणम् कुरुते तस्मादाहुण्यश्चैवम् वे ऋण्यश्च न कथा पुत्रस्य केवलम् कथा साधारणम् विजयत्यस्कन्दमेवदत्य स्कन्द जगायत्रेव तेन गर्भम् धत्ते सा प्रजाम् चक्षुषे वा एते यज्ञस्य यदाज्य भागौ यदाज्यभागौ यजतिचक्षुषे एव तद् यज्ञस्य प्रतिपूर्वाद्योदितस्मात् पौर्वाद्धे चक्षुषे प्रबाहुजुतस्मात् प्रभाहु चक्षुषेदेव लोकं वाक्षिणां सोमाय लोकामनयो लोकयोर्मेतौ देवतानां यदग्ने सोमा बन्तरा देवता युज्ये च देवतानां विधत्ते तस्मात् राज्ञा मनुश्चा विधृता ब्रह्मवादिना वदन्ति किञ्चे यजमानः कुरु तेजे नान्यजोदश्च पशोन् राजानो भयतोदश्चाद्यभागस्य चुषानेन विषलिता विषलितेन भयतोन्वदे पुराणवाक्याभवदिनोद्धानमेवैन कंसमाना त्याभ्रातिव्यस्ते पशान् नियवच कैशिरं हसा केशेधात्यगामिवाच सप्तपधान् देशपदे यज्ञे प्रयोक्ता यस्यैव प्रजातान् भ्रातु्यान् नुदेवक्ते यस्येव नूर्वाद्यदघनात् धेन धेन पुरस्ताल्लक्ष्मापुरोनुभाक्या भवति जातानेव भ्रातृव्या प्रणनुद उपयुष्टाल् लक्ष्मायाज्याचलिष्यमानानेव प्रजनुद पुरस्ताल्लक्ष्मापुरोनुभात्यस्मिन्नेव लोके ज्योतिर्धत्त उपरिष्टाल् लक्ष्मायाज्यामस्मिन्नेव लोके ज्योतिर्धत्ते ज्योतिष्मन्तामस्मा लोको भवतो akta कारस्त्रिपदमेन वज्रं भ्राजं प्रहरत्रे पुरो ब्रह्मन्नेव क्षत्रमन् प्रारम्भयति यस्ता ब्राह्मणो मुख्य मुक्ष भवति यैमं वेदत्रैव परोनुभाग्ययाः प्रणयति याद्यया ज्या गमयति वटत्कारेणैवैनं परोनुभाग्यया दत्ते प्रयच्छति याद्यया प्रतिवटत्कारेण स्थापयति त्रिपदा परोनुभाग्या भवे त्रेणि मे लोकायेष्वेव लोकेन प्रतिष्ठति ेव नवन्ध्रे द्विक्षदावषष्ठा वरिष्ठात्मजनिष्ठरिकायत्रे वाक्याभयत्प्रष्टव्याद्यैषा वै सप्तपथासक्मरे यत्ता नेतया नेवा अशिक्षन्तरसक्ममनिय एवम् वेदशक्माद्येव यत् शिक्षते प्रजापदर्देवेभ्यो यज्ञान् व्याधिशत्सहात्वन्नाद्यतम् देवाभ्रुवन्ेशवावयज्ञाय राज्यमेवणानभिकारयापमस्त्रिणन्तिकारयन्ते ब्रह्मवादिना वदन्ति कस्मात् सत्या जातगामान्य्यानि हवेश्य यातया प्राजाभक्त्यभ्रो यादयादयामाभिदेवाना प्रजापदन्दांसि देवे भो नव भागा नव्यं वक्ष्यामेभयेतच्चतुरभक्तमधारयन् बलोनुग्यायै याज्ञायै देवतायैव चाराय चतुरभक्तञ्जहोति छन्दाय स्दप्रेणाजिदान्यस्य प्रेतानुदेवेभ्यो हव्यं वहान्त ङ्गिनसोवाविदमुत्तमात्तुर्कं लोकमायन्तस्तव्यमायन्ते पश्यन् पुनोटाशङ्कोद्मम् भोतम्पं दन्तग्नये ध्रियस्ते ध्रियरगदा जित्ये तव ब्रवस्ता वाको भ्रमेत्येवमपात्युपरिष्टादभ्यतादुपालक्षि सुभर्गस्य लोकस्य स्मान् मागुंसेनाक्षिछन्नं प्रच्युतं लोकैयक्षिलं हविरणितमभिहार्योद्वादयति देवत्रै वैरद्गमयति यद्यैकं गा ङ्गश्चेदस्यादमायद्वेनश्चेताम् द्वौ मासौ संवत्सरस्यारभेदौ स्यादापगिनवान् अष्टमीजेत सङ्ख्यायोद्वादय इरमानस्य गोपीठारिगदिनश्चेदािनरण्यत्वमेकपालमश्विनौ वेदेवानाम् भिणलोकाभ्यामेवाष्मे भेभङ्करो दिद्यावा ज्ञकेकगपालो भवत्यनयोर्वा एतन्नश्च दयन्नश्च बाहुभ्यामित्याहाश्विनो हि देवानामधर्युः आस्ताम् वोष्णो हस्ताभ्यामित्याहयत्ते सदभष्ट्य लोकेभ्यो निर्भजति गोष्ठे च दुर्भगम् हरत्यपरिमिता देवै निर्भयत्युद्धन्ति यदेवास्यामे पराभवन्ति मूलम् छिलत्यभ्याजव्यस्तेव मूलं छिलत्यपितदेवत्यादि घाते यदि खनति प्रजापतिनायज्ञमुखेन लम्बिताम् प्रतिष्ठायै खणति यजमानमेव प्रतिष्ठान् ैवे पदभः पुरेशं प्रदये पदभः पुरेश पन्दरोत्युत्तरं परिग्राहं परिगृह्णात्येतावदेवे पृथिवी यावदेवे जष्टस्यायेतावत एव भ्रातुर्यन्निर्भज्यात्मनवुत्तरं परिग्राहं परिगृह्णादि क्रूरवा एतत्करो तथा चेति योजप्य देशान्ते राक्षसेना साधयत्या भो वे रक्षे रक्षधामतः ज्येष्ठस्य पद्मन् साधयति यज्ञस्य सङ्गत्यै यन् दृष्ट्या सन्ध्यायच्छुदैवैनमर्पयति वादिना वदन्त्यभ्यहवेगम् षप्रोक्षे केनापयति ब्रह्मणेतिप्रोयादभ्यर्क्ये वह द्य प्रोक्षत्तेभ्य एव्यः प्रोक्षति क्रूरमिव मानत्येव गृह्णाति प्रजापतिनायज्ञमुखेन संवितं बहिः स्तृणाति प्रजापेः पृथिवी वेदिः प्रजागेव पृथिव्यां प्रतिष्ठापयत्य न दितुष्टज्ञस्तृणा शुभिरणजृष्टं करोत्युत्तरं प्रस्तर गुण् जयति प्रजामेन यजमानः प्रस्तरो यजमानमेव यजमानादुत्तरं करो यजमानादुत्तरोन्तर्दधा दिव्यावृत्यानग्भ्य हविष्कृतमेवेन गुङ्मर्गं लोकं गमयति त्रे धानक्षित्रय इमे लोकागेभ्य एवं लोकेभ्य यत्प्रदर्शी यादनोद् यजमानस्य स्यादुपरे प्रहरत्युपरे वयसु वर्गो लोको निगच्छति वृष्टिमेवस्मै नियच्छति नात्यग्रम् प्रहरेत् जलत्यग्रम् प्रहरेदत्यासारिण्यः पर्योर्नाशुकास्यान्न पुरस्तात् प्रत्यस्येद्यत्पुरस्तात् प्रत्यस्येत्सु वर्गालोकाद्य प्राञ्चम् प्रहरति यजमानमेव सुवर्गं युप्यते यजमानस्य गोपीठाय ब्रह्मपातिना वदन्ति किं यज्ञ नगिरि प्रस्तरगिरितस्तक्पसुवर्गो लोकयित्याह वनीय इति ब्रूयाद्यत्प्रस्तरमाहवीये प्रहरति यजमान मे पसुवर्गम् लोकङ्गमयति विवाहे तद्यजमानो लिषते यत्प्रस्तरङ्गो युक्तम् ते बर्हि प्रहरति शान्त्यानारम्भणयिववागेतश्चर्गस्य ईश्वरो वेपनो भवितो ध्रुवासी धीमामभिमृशति ्रुवास्यामेव प्रजतिष्ठति न वे पुनोभवत्यगा नग्ने नित्याभयद्ब्रूजातगन्नत्यज्ञाभग्निम् गमये निर्यजमानकम् सुवर्गाल्लोकाद्भजेतगन्नित्येव ब्रूयाद्यजमानमेव सुवर्गम् लोकम् गमयति ग्नेष्टयोज्यायागम् सोऽभ्यातराः सन्ते देवेभ्यो हव्यम् वहन्तः प्रामीयन्त सोऽपिभेदिच्छम् वावस्यायत सोऽपः प्रापि शक्तम् देवताः प्रैषमेच्छन्तम् मत्स्यः प्राभ्रमे तमशपद्धिगाधिया नुपनावस्व हव्यस्कन्धात्तधे तस्माद्स्याहुदस्य बहिः परिधिस्कन्धितेन प्रीणादि परिधीन् परिदधाति पुरस्तात् परिदधात्यादित्येवोद्य पुरस्ताद्रक्षागस्य वहन्त्यो द्वे समिधा वा दधात्युपरिष्टादेव रक्षागस्य वहन्त्येवन्यां मिशनत्वायद्वे आदधादिद्यमानः प्रतिष्ठिते ब्रह्मवादिना सत्त्वजे द्वयो यज्ञस्यां स्यादिति भोपदगे स्वाहा स्वाहा भूतानां पदये स्वाहेति स्कन्दमनुमन्त्रगे तैत्यस्यै पददार्चायुजमानो वसीयान् भवति भूयसे प्रेणादिजामिव एतद्धस्य क्रियते यदन्वञ्चौ पुरोडाशापागुंशियाजमन्धराधिरक्षामित्वा यासो मिश नत्वा याग्नमुष्मल्लोकादि देवा अभ्रुवन्ने देवर्योहा मे चन्द्राजेन देवा अग्निमुपामन्त्रयन्तराज्येन पितरो यमन्तस्मादग्देवानामन्नाथो यमः राजां वैरप्रराज्यमन्नाद्यमाप्नोदितस्मादेतभागधेयं प्रायच्छ न यदग्नये स्पृष्टकृते पद्यं नियदग्नये स्पृष्टकृते वध्यति भागधेयेनैव तद् सकृति प्त्यै पशुभो वेपोर्वा आहुदय येद्वारिपोर्वा आहुतेरभिजुहुयाद् दुर्द्राय पशोनपि दध्यादपशुर्यमानः स्यात् जिहाय पोर्वा आहुतेर्जुहोति पशूनाङ्गोपीठाय मनः पृथिव्या यज्ञयमेच्छत्स घृतम् निशिष्टमविन्दत्स ब्रवीकोऽस्येश्वरो यज्ञेऽपिकर्तोब्रूताम् मित्रावर्णौ गोरेवामेश्वरौ कर्ता स्वय ऋतौ ततो गाकं समेलय तापुंसा ेत्याहेयं वै रथन्तरमिमामेव सहान्नाद्य नोपक्वयद उपभूतं वामदेव्यं दहान्धरिक्षेणेत्याहपशवो वै वामदेव्यं पशूनेव सहान्धरिक्षेणोपक्वयदुपभूतं बृहत्सह दिवेत्याहैरं वै बृहदि रामे वसह दिवो वक्वयदुपभूताः सप्त होत्रादित्याहोत्रागेवोपक्वय उपभूता धेनुःसहृणे त्याः मिथुनमेव पक्वयरव बभूतो भक्षस्सखेत्याः सोमपीसमेव पक्वयर उभूता त्याहात्मानमेवोपक्वयत आत्मा ह्युपहूतानां वसिष्ठयिडामुपक्वयदे वसवो वायिडा पशोमेवोपक्वयते चतुर्पक्वयदे चतुष्पादो हि वसवो मानवीत्याहमनुर्ह्येतामग्रे पश्यद्भृतपदेत्याहयदेवास्यैवृतमपि तस्मादेव माहमयित्रावरुणीत्याहमित्रावरुणौ केनाकुं समेतयताम् ब्रह्मदेव ब्रह्महूतमित्याह ब्रह्मैवोपह्यते दैर्याहध्वर्यव उपहूता मनुष्या इत्याहदेव मनुष्यामेवोपह्वयते ययम यज्ञमभानि यज्ञपतिं बद्धा र्वजैत्येतेवरी देवी देवपुत्रे इत्याह देवी इत्येते देवपुत्रे उपभूतो यङ् इत्याह यजमानमेवोपह्वयत उत्तरस्यां देव यज्ञायामुपभूतो भूयसह विष्करणमुपभूतो दिव्ये धावन्मुपभूत इत्याह प्रजावामुत्तरा देव यज्ञापशवो भूयोः विष्करणं सुवर्गो लोको दिव्यन्धामे दमसेतमस त्येव यज्ञस्य प्रियम् धावोपह्वयते विश्वमस्य प्रियमबहोदमित्याहाछम्बट्कारमेवोपह्वयते पशवो वाय्यास्वयमादत्ते काममेवात्मना पशूनामादत्ते लक्ष्यन्नः कामम् पशूनाम् प्रयच्छति वाचस्पदय त्वा हुतम्ब्राश्चामीत्याह वाचमेव भागधेयेन प्रीणादिपदग त्वा हुतम्ब्राश्चामीत्याः स्पगाकृते भवति हविर्वे चतुरभक्तम् पशवश्चतुरभक्तै यद्भवताः प्रा ौतार्तिमार्च्छेद्यो जुर्याद्गपशोनपि दध्यातपशुर्नः स्यात् त्वातस्पदग त्वाहुतं प्राष्टामीत्याह परोक्षमेव जहोरिदस्पदग त्वाहुतं प्राष्टामेत्याहस्पकागत्वे प्राश्नन्ति तीर्थगेवन्ति दक्षिणान्धदादिती तीर्थगेव दक्षिणान्धदादिविभागे तद्यज्ञं छिन्दन्ति प्राष्ट्यन्त्यर्मार्जन्ता वो वै सर्वा देवता देवताभिरेव यज्ञकम् सन्तन्वन्ति देवा मन्तरायन् स यज्ञमविध्यत्तम् देवाभिगमगच्छन्त कल्पनान्न इदमिति ब्रुवन् सुष्टम् वै न इदम् भविष्यति यदि मगम् राजयिष्यामै I'm just mad, yeah. मात्रमवध्येद्विद्यायो वध्येद्रौपयेत्तद्यज्ञस्य यदुपजस्तृणीयादभिज देवा गोदंत गोहित अब्रुव्य प्राजित्र बृहस्पत बृहस्पति मेरी मंत्र सेमी तब्रभेन्निस्थितुकिंजन स्थिति प्रतिगृहत माही गंस्य देवश्चत्वा सविदः प्रसवे बाहुभ्याम्भ्याम् प्रतिगृह्णामीत्यब्रवेत् सविदः प्रसूत एवैन ब्रह्मणा देवताभिप्रत्यगृह्णात् स बिभेत् प्राश्चन्तं वाहिगम् शिष्यवेत्यज्ञे स्वास्येन प्राष्टामेत्यब्रभीन्न ह्यग्ने किञ्चन हिनस्ति स बिभेत् प्राशितम् वाहिगम् शिष्यति णस्योदरेणेत्यब्रवे ब्राह्मणस्योदरम् किञ्चन हिनस्ति बृहस्पते ब्रह्मणे ग्निधा तथात्यग्निमुखानेवणादि समिधमा तथात्युत्तराहुदीना प्रेक्षेत्रासो समिद्वत्येव जुहोदिपरिमाष्टिपुनात्येवना सकृत्सकृत्सम्माष्टिपरायवक्ये तर्हि यज्ञश्चरः सम्पद्यते चरःपादः पशवः पशोनेवावरुन्धे ब्रह्मन् प्रस्थास्यामयित्र्याः प्रवागे तर्हि यज्ञश्रितो यत्र ब्रह्मा यत्रैव यज्ञश्रिवस्तर एव प्रमीवेच्छेष्मान्दयाद्योष्टेवासीतासंवृत्तो यज्ञस्याेत्येव ब्रूजा यज्ञश्रितो यत्रैव यज्ञश्रुतस्तरगेवैनसम् प्रयच्छति देव स वितरे दत्ते प्राहेत्याह प्रसू <tuna> ृहस्पतिर्ब्रह्मेत्याहस हे ब्रह्मष्ठस्रयज्ञं पाहि स यज्ञवयं पाहि समां पाहेत्याह यज्ञायमाणायात्मनेभ्यमाशास्तेनात्याः देवान यजेति ब्रह्मवादिना दे वदन्तेष्टा देवता अथ कदमगेते दे दे दे देवाय निषन्धागं सीतिब्रूजायत्रेन्द्रष्टुभञ्जकदे दे� ल्वाहु ब्राह्मणा वेक्षन्धांसेदितानेपदी देवानांष्टा देवता आसन्नथाग्रर्णो जज्वलत्तं देवा आहुदेभिरणो याजेष्वन्वविन्दनयतनो याजानयजत्यग्निमेव तत्समिन्धे तदुर्वै नामासुराजेतरि यज्ञस्यादितमविन्दयभ्रो जाते चतुर्द्यावापृथिवे भद्रमभोजत्ये तदुमेवासुनै यज्ञ स्याधिरङ्गमये द्विरं ज्या वा पृथिवे भद्रमभूरित्येव ब्रूया त्रिदमानमेवैत्यस्याधिरङ्गमयच्चाद्भुतोत्पवाकमुतनोपाकमित्याहेतमराक्स्म्य दिवा वेददाहोपश्रुतो दिवः पृथिव्योरित्याहद्या वा पृथिव्योरि यज्ञमुपश्रुतवो मन्वदेऽस्मिन् यज्ञे निजमानद्या वा पृथिवेस्तामित्याहृदमेवेतामाशास्ते यद्ब्रूजात् सोपावसानादस्पथ्यवसान प्रमायुको यजमानस्य जराहि प्रमीयते अे मामुपावस्य रिसोपचरणायस्पधि चरणा च सेवद्ब्रूजाद्वरीयसे मेवास्मै गम्यो दिमाधास्तेवत् प्रमायुको भवति तयोराविद्यज्ञम् हविरजुषे दे। त्याहयाक्ष्म देवतास्तारेर धामे दिवा वै निर्दिशेत् प्रतिवेशयज्ञस्याे दाशाः यजमान सावित्याह यज्ञस्यैवेनकं सुवर्गम् लोकं गमयत्यायुराशास्ते सुप्रधामाशा स्थगित्याः वैतामासाः स्ते जातमनस्यामाशा स्थगित्याः प्राणावेशजाताः प्राणानेव देव भ्यो मनते वयमज्ञेम् वानुषायित्याह यद्देवेभ्यो मनुते वयम् मनुष्येभ्ययि निवा वैतराहेह गदर्वामश्चेदम् च नमो देव भगित्याहयाश्चैव देवता याश्चनताभ्य एव भगीभ्यो नमस्तत्मनो ना देवावि यज्ञस्य स्वगा कर्तारण्णा विन्दन्ते संयुम् वारृहस्पत्यमब्रवन् निमन्नो यज्ञस्वगाकुर्व्रवेद्वरम् वृणे यदेवा ब्राह्मणोक्तो श्रद्दधानो यजादेशावे यज्ञस्याशीरसदि तस्माद्य ब्राह्मणोक्तो श्रद्दधानो यजते संयमेव तस्य बारृहस्पत्यम् यज्ञस्यात्ते किं मे प्रजाया इति योपगुराते शतेन यातयाद्यो निघनच्छातयाद्यो लोहितङ्कर्यावतः प्रस्तद्यवत्सरान्लोकन्न प्रजानादितस्मा ब्राह्मणा जनापगुरेतनलिघन्लोहितं कुर्यादे तावदाहैनसा भवति तत्क्षं यो रामृगे महि त्याह यज्ञमेव तत्सका करोति तच्छञ्ज्ञो राणे माहित्याः संयमेव पालस्पत्यं भागधेयेन समर्थयति घातु यज्ञाय घातु यज्ञवदयित्याहासितमेकैतामाशास्ते सोमङ्गियतिरेतगेव तत्रधाष्टारङ्गजदिरेतगेव हितं दष्टारूपाणि करोति देवानां पत्येयमिथनर्तायाग्नि गृहपतिङ्गजलिप्रद ेजामिवा एतद्यज्ञस्य क्रियते यदाध्ययन प्रयाजा युज्यन्त आध्ययनपत्ने सञ्याजा मनोच्च पत्ने सञ्याजानामृताय धिरामित्राजामिष नत्वाय पङ्क्तिप्रायणो वैयज्ञः पङ्क्तिः पञ्चप्रयाजा युज्यन्ते धत्वारः पत्ने सञ्याजाः समिष्टयजः पञ्चमम् प्रयन्ति पङ्क्तिमनोर्जन्ते ेवभूतमागुम् अश्वागुम् अग्ने रधीरिवा विहोता पूर्यस्वदः उत नो देवदेवागुम् अच्छागोचो विदुष्टरः सर्वेश्वार्याकृधि त्वगुम् हयद्यविष्ठदस्सो न बाहुता हृदा वा यज्ञयो भुवः अयमग्निस्थसृणोवाजस्य तन्ने तन्नेमिभवो विधानमस्वसहोदिभिः हेदीयो यज्ञमङ्गिरः तस्मै नौनमभिद्यवाचापि नित्यया कृष्णे चोदस्वतुष्पतिम् कमुष्मिदस्य सेनयाग्नेरपाकचक्षसः परिङ्गो शुस्परामहे मानो देवानाम् विषः प्रश्नातीभोराः कृशर्णः सुलघ्न्याः आनः समस्य दोढ्यः परिद्वेषसो अगो हतिः नमस्ते अर्णोजसे गृह्णन्ति देव कृष्टयः गविष्टये दे संवेशिषो रयम् पुरुणस्कृतिः माणो अस्मिन्महाधने पराभृग्भारभृद्यथा सम्पर्गुंसकम् रगिञ्जय अन्स्पियायम धिषक्तुक्षुमा बद्धा नो अम वह युष्णमस्मि नश्च मे मजुर्मखस्त संगे जगदर्वृापति परस्वतरागुम यहामस्पितागुम विमाते पुरा वयम पित अथाते सुन्न मीमे य उग्रैवशर्यः जिग्मशङ्गो नपगुंसगः आज्ञे पुरोनुरोदितः सखायः संवः संयम् च विषग्रस्तो मञ्चाग्नये मरिशिष्ठायक्षुकेनामोर्जो नेदहस्पदे सर्वम् समिद्युपदे वृषन्नग्ने प्रजापते स वेद सोमाभूषणे मौ देवौ उशन्तस्त्वाहवावह उशन्तः समि धीमहि उशन्वशत आवह पितरेण हविषे आत्तवे तगुंसा भप्रचिगितो मनीषात्तगुम् वजिष्ठमनुनेशि पन्थाः पभप्रणीते पितरो निन्दो देवे सुरत्रमभजन्तः हिनः पितरः सोमपोर्वे कर्माणि चक्रप्लवमानधीयाः वन्वन्नपादः परिधे गौरपोर्वेरेभिरश्वर्मघवा भवानः स्वपंसाम पितृभिः संविदानो विद्या वा पृथिवी आचरन्था तस्मैत इन्दो हविषा विधेमवयज्ञस्यामपदयो वयीणाम् ग्रष्पाः स्तरयेहगच्छदशस्वतनुप्रणीतयः अत्राहमेकम् हिप्रयतानि बलिहष्यथा रयम् सर्ववीरम् दधातन बलिहिषदः पितरपोच्चर्वा किमावो हव्याचकर्मायुषध्वम् सा गावसाशन्तमेनाथास्मभ्यगुंशयोरपो दधात हम् पितरेञ्विदत्रागम् अविच्छिनपातम् च विक्रमणम् च विष्णाः परिहृषतो सुतस्य भयन्तमि त्वस्तैः आगमिष्ठाः भूभूताः पितरः सोम्यासो परिहृष्येषु निजप्रजेषु प्रागमन्ततैः श्रुभन्त ते अवन्तस्मान्वरमुत्परासमुन्मध्यमाः पितरः सौम्यासः संयगीयज्ञास्त्रेणो वन्तु पितरोहवेषु इदम् पितरभ्यो नमो हस्तद्युगे पूर्वासो य उपदासयीयोः ये पार्थिवेदस्यानिषत्ता ये वा नोनगम्सुवर्जनासु विक्षु तथा यथा नः पितरः परासः प्रत्रासो अग्रतमासुषाणाः सुचेतयन्तेमुत्थशा सह क्षामा भिन्दन्तो निरग्ने गव्यवाहनपितरेण यक्षिता वृधः वक्षसि देवेभ्यश्च पितृभ्यः त्वमग्नितो जातवेदो वाक्षव्यानि सुरभेणि कृत्वा राधाः पितृभ्यः स्वसजाते अक्षन्नद्ध्यत्वम् देव प्रयता हवेषि मातले कव्यैर्यमो अङ्गिरभिर्वहस्पर्गभिर्वावृधानः यागश्च देवा वासुर्गे च देवान् स्वाहान्ये स्व्ये वदन्ति इमयमप्रस्तरमाहिलीदाङ्गिरोः संविरानः आत्त्वा मन्त्रा क्रविशस्तावहन्त्रेण रागन हविषामादयस्व अङ्गियोऽभिरागै यज्ञभिर्यमभैरूपैरिहमादयस्व बृहस्पन्दगुम्भुपेजः पिता तेऽस्मिन् यज्ञे परिहिष्या निषद्य अङ्गे सो नः पिलो न भग्वाथर्वानोभृगवः सोम् व्यासः तेषाम् भजगुं समथो यज्ञया नामसे स्यामा द्वितीजकाण्डः समाप्तः